ॐ श्रीगणेशाय नमः श्रीमहासरस्वत्यै नमः श्रीव्यासदेवाय नमः अस्मद्गुरवे नमः श्रीपादश्रीवल्लभश्रीनृसिंहसरस्वती श्रीगुरुदत्तात्रेयाय नमः महाभारतस्य विराटपर्वणि द्वितीयोऽध्यायः नारायणं नमस्कृत्य नरं नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् भीमसेन उवाच पौरोगवो गवो वल्लवो वल्लभो नाम भारत उपस्थास्यामि राजानं विराटमि इति मे मतिः सोपानस्य करिष्यामि कुशलोऽस्मि महानसे कृतपूर्वाण यंजना सुशिषितान्यप्यमी प्रीतिम संजनयनहम विचयान दारूण विचयान्महेक्ष्य विपुल कर्म राजा संयोक्ष्य सामं अमाष्याणस्ता कर्मा भारत राज्ञस्तस्य परे प्रेश्या मंस्यन्ते मां यथा नृपं भक्ष्यान्तरसपानानां भविष्यामिथेश्वरः द्वीपा वा बलिनो राजन् वृषभा वा महाबलाः विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ये, ये च समाजेषु नियोधकाः तानहं हि नियोत्स्यामि रतिं तस्य विवर्धनं विवर्धयन् नत्वेतान् युध्यमानान् वै हनिष्यामि कथञ्चन तथैतान् पातयिष्यामि यथा यास्यन्ति न क्षयम् आरालिको गोविकर्ता सोपकर्ता नियोधकः आसं युधिष्ठिरस्याहम् इति वक्ष्यामि पृच्छतः आत्मानमात्मनारक्ष्यं इत्ये विशाम्पते इत्येतत्प्रति जाना इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा युशिष्ठिर उवाचां यमा यमग्निर्ब्राह्मणो भूत्वा समागच्छन् ऋणाम्बरम् दिधक्षुः खाण्डवं दावं सहितं पुरा महाबलं महाबाहुमजितं कुरुनन्दनं सोयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः योऽयमासाद्य तं दावं तर्पयामासपावकं विजित्यैकरथेन्देन्द्रं हत्वा पन्नकराक्षसान् वासुकेः सर्पराजस्य स्वसारं धृतवांश्चयः श्रेष्ठो प्रतियोधानां सोऽर्जनः किं करिष्यति सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः आसीविषश्च सर्पाणाम् अग्निस्तेजस्विनां वरः आयुधानां वरं वज्रं ककुद्मि चगवां वरः हृदानामुदधिश्रेष्ठः पर्जन्यो वर्षतां वरः धृतराष्ट्रश्च नागानां हस्तिष्वै वरः पुत्रः प्रियाणामधिको सुहृदां वरा गिरीणां प्रवरो मेरुः देवानां मधुसूदनः ग्रहाणां प्रवरश्चन्द्रः सरसां मानसं वरम् यथैतानि विशिष्टानि जात्याम जात्याम मृकोदर एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मतां सोयमिन्द्रादनव सोयमिन्द्रादनवरो वासुदेवान्महाद्युतिः गाण्डीवधन्वा बीभत्सुः श्वेताश्वः किं करिष्यति उषित्वा पञ्चवर्षाणि सहस्राक्षस्य वेष्मनि अस्त्रयोगं समासाद्य स्ववीर्यान्मानुषाद्भुतं दिव्यान्यस्त्राणि चाप्तानि देवरूपेण भास्वता यं यन् यं मन्ये त्रयोदशम् वसूनां नवमम् मन्ये ग्रहाणां दशमं तथा यस्य बाहूसमौ दीर्घो ज्याघातकठिनत्वचौ दक्षिणे चैव सव्ये च गवामिव वः कृतः हिमवानिव शैलानां समुद्रः सरितामिव त्रिदशानां यथाशक्रः वसूनामिव हव्यवाट् मृगाणामिव शार्दूलः गरुडः पततामिवा। वरसन्नह्यमानानां सन्नह्यमानानां सोऽर्जुनः किं करिष्यति अर्जुन उवाच प्रतिज्ञां षण्डकोऽस्मीति करिष्यामि महीपते ज्याघातोहि हि महान्तौ मे संवर्तुं नृपदुष्करौ वलय वलयैश्चादयिष्यामि बाहू किणकृताविमौ कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनप्रभेदुःभ्यां पिनद्धकं बुःपाणिभ्यां तृतीयां प्रकृतिं गतः वेणीकृतशिराराजन्नाम्ना नाचैव बृहन्नला पठन्नाख्यायिकाश्चैव स्त्रीभावेन पुनः पुनः रमयिष्ये महीपालमन्यांश्चान्तःपुरे गीतं नृत्यं विचित्रं च वादित्रं विविधं तथा शिक्षयिष्याम्यहं राजन् विराटस्य पुरस्त्रियः प्रजानां समुदाचारं बहुकर्म कृतं छादयिष्यामि कौन्तेय माययात्मनामात्मना माययात्मनमात्मना युधिष्ठिरस्य गेहे वै द्रौपद्याः परिचारिका उषितास्मीति वक्ष्यामि पृष्ठे राज्ञा च पाण्डवा एतेन विधिना छन्नः कृतकेन यथा विहरिष्यामि राजेन्द्र विराटभवने सुखम् इति श्रीमहाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि युधिष्ठिरादिमन्त्रणे द्वितीयोऽध्यायः मातापितृसहस्राणि पुत्रदारशतानि च संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे हर्षस्थानसहस्राणि भयस्थानशतानि च दिवसे दिवसे मूडं, दिवसे, दिवसे मूढम् आविशन्ति साक, न पण्डितम् ऊर्ध्वबाहुर्विरोम्यैष न च कश्चिच्छृणोति मे धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते न धर्मं च जेज्जीवितजीवितस्यापि हेतोः नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः इमां भारतसावित्रीं प्रातरुत्थायः पठेत् सभारतफलं प्राप्य परं ब्रह्माधिगच्छति सर्वं श्रीगुरुचरणार्पणमस्तु